हरि श्री श्रीसीता रामचन्द्राभ्य नमः अथ श्रीमद् वाल्मीकि रामायणे युद्धकाण्डे त्रयोविंशति अधिकशत तम सर्गः अयोध्यां गच्छन् श्रीरामो सीतां मार्गस्थानान् निदर्शयत् अनुज्ञातं तु रामेण तद्विमानम् अनुतमम् हंसयुक्तम् महानादम् उपपात विहायसम् पापयि ततश्चक्षुः सर्वतो रघुनन्दनः अब्रवीन् मैथिलीं सीताम् रामः शिनिभानम् कैलास शिखराकारे त्रिकूट शिखरे स्थिताम् लङ्कामिक्ष स्वैदेहि निर्मितां विश्वकर्मणा एतदा यो धनं पश्य मास शोणितगर्दम्बम् हरीणां नाम राक्षसानां च ीते विशसनं महेत् एष दत्तवर्षेते प्रमाथी राक्षसे तवहे नियतो रहे तव हेतोर्विशालाक्षि निहतो रावणो मया कुम्भकर्णोऽत्र निहत रहस्तैश्च निशाचरहे दूम्राक्षश्चात्र नियतो वानरेण हनुमता विद्युन्माली हतश्चात्र सुषेणेन महात्मना लक्ष्मणेन रज्जिता चात्र रावणे नियतोरणे अङ्गदे नियतो, नियतो विकटो नाम राक्षसः विरूपाक्षश्च दुष्प्रेक्षो महापार्श्व महोदरो अकम्पनश्च नियतो बलिनोऽन्ये च राक्षसः कृशिराश्चातिकायश्च देवान्त कनरान्तगौ युद्धोन्मत्तश्च मत्तश्च राक्षस प्रवरा उभौ निकुम्भश्चैव कुम्भश्च कुम्भकर्णात्मजो बलि वज्रदंशश्च दंशश्च भवो राक्षसाहतः मकराक्षश्च दूर्धर्शो मया योधि निपातितः अकम्पनश्च नियतः शोणिताक्षश्च वीर्यवाम् विपाक्षश्च प्रजङ्गश्च नियतो तु महाहवे विद्युज्जीवोत्र नियतो राक्षसो भीमदर्शनः यज्ञशत्रुश्च नियतः सुप्तघ्नश्च महाबलः सूर्यशत्रुश्च नियतो ब्रह्मशत्रु तथापरः अत्रो मन्दोदरी नाम भार्या तम् वर्य देवयेत् सपत्नीनां सागरेण परिवारिता एतत्तु दृश्यते तीर्थम् समुद्रस्य वरानने यत्र सागरमुत्तीर्य तां रात्रिमुषिता वयम् एष सेतुर्मया बद्ध सागरे लवणार्णवे तव हेतोर्विशालाक्षि नरसेतु दुष्करः पश्चा राक्षसमक्षोभ्यम् वैदेही वरुणालयम् अपारम् इव गर्जन्तम् शङ्ख शुक्ति समाकुलम् हिरण्यनाभं च हिरेन्द्रम् काञ्चनम् पश्य मैथिली विश्रमार्थम् हनुमतो विश्वासागरमुत्थितम् एतत् कुक्षो समुद्रस्य कन्धाभार निवेशनम् अत्र पूर्वम् ह देव प्रसादम् विभु एतत्तु दृश्यते तीर्थम् सागरस्य महात्मनः सेतुबन्ध इति ख्यातं त्रैलोक्येन च पूजितम् एतत् पवित्रम् परमम् महापातकनाशनम् अत्र राक्षसराजोऽयम् आजगाम विभीषण एषा सा दृश्यते किष्टिन्धा सुग्रीवस्य पुरी रम्या यत्रवाली वाली मय हतः अथ दृष्ट्वा पुरीं सीता किष्किन्धां वालि पालिताम् अब्रवीत् प्रश्रितं वाक्यम् रामम् प्रणय साध्वग्रीव प्रिय भार्याभिः ताराः प्रमुखतो नृप अन्येषां वानरेन्द्राणां स्त्रीभिः परिवृता ययम् गन्तुमिच्छे अयोध्याम् राजधानीं त्वया सह एवम् मुक्तोऽथ वैदेहा राघवे प्रत्युवाच ताम् एवम् अस्ति किष्किन्धां प्राप्य संस्थाप्य राघवे विमानं प्रेक्ष सुग्रीवम् वाक्यम् एतद्वाच है ब्रूही वा नरशार्दूल सर्वान् वा नरपुङ्गवान् परिवृता सर्वे ी अयोध्यां यातु शीतया तथा त्वमपि सर्वाभिः श्रीभि सह महाबल अभित्र यः सुग्रीव गच्छामत्र वगाधिप एवम् सुग्रीवो रामेणामित तेजसा वानराधिपति श्रीमान् तैश्च सर्वे समावृतः प्रविशान्तः पुरं क्षीरं सा रामुद्दिश्य प्रिये त्वम् सह नारीभिः वानराणाम् आत्मनाम् राघवेणाभ्यनुज्ञाता मैथिली प्रियकाम्यया सर त्वमधिगच्छामो गृह्ये वानर योषितः अयोध्याम् दर्शयिष्याम सर्वादशरस्रिय सुग्रीवस्यैव तारा सर्वाङ्गशोभन आहूय चाब्रवेत् सर्वा वानराणाम् तु योषितः सुग्रीवेणाभ्यनुज्ञाता गन्तुम् सर्वै च वानरैः मम चापि प्रियम् कार्यम् अयोध्यादर्शनेन च प्रवेशम् चैव रामस्य पौरजानपदै सह विभूतिम् चैव सर्वासाम् स्त्रीणाम् दशरथस्य च धारया चाभ्यनुज्ञाता सर्वा वानर नेपथ्य विधि कुर्वन्तु कृत्वा चापि प्रदक्षिणम् अध्यारोहन् विमानम् तत् सीता दर्शनकाङ्क्षय ताभिः सहोत्थितम् शीघ्रम् विमानम् प्रेक्ष्य राघव दृश्य मूक समीपे तु वैदेहिं दृश्यते सो महान् सीते स विद्युत् काञ्चने धातुभिर्वृतः अत्राहं मानरेन्द्रेण सुग्रीवेण समागतः समयश्च कृतश्रीते वधार्थं वालिनो मया एषा सा दृश्यते पम्पा चित्रकानना त्वया भीनो यत्राहं विललाप सुदुःखितः अस्यास्तीरे मया दृष्टा शबरी धर्मचारिणे अत्र योजनबाहुश्च कबन्धो नियतो मया दृश्यते सो जनस्थाने श्रीमासीते वनस्पतिः जटायुश्च महातेजा तव विलासिनी रावणेन हतो यत्र पक्षिणाम् प्रवरो बलि करश्च नियतो यत्र दूषणश्च निपातितः त्रिशिराश्च महावीर्यो मया वाणी अजिम्हगै एतत्तदाश्रमपदम् अस्माकं वरवर्णिनी पर्णशाला तथा चित्रा दृश्यते शुभ दर्शने यत्र संरक्षसेन्द्रेण रावणेन हृता एषा गोदावरी रम्या प्रसन्न सलिलाशुभा अगत्यस्याश्रमश्चैव दृश्यते कदलीवृतः दीतश्चैव चैवाश्रमोयेच ये च सुतीक्ष्णस्य महात्मनः दृश्यते चैव वैदेही शरभङ्गाश्रमो उपयात सहस्राशो यत्र शक्रः पुरन्दरः अस्मिन् देशे महाकायु विराधो नेतो मया एते तापसा देवी दृश्यन्ते तनु मध्यमे अत्रि कुल पतिर्यत्र सूर्य वैश्वानरूपमः अत्र सीते त्वया दृष्टा तापसि धर्मचारिणी अथ सूतनु शैलेन्द्र चित्रकूट प्रकाशते अत्र मां कैकेय पुत्र प्रसादयितुमागतः एषा सा यमुना रम्या दृश्यते चित्रकार भरद्वाजाश्रम श्रीमान् दृश्यते चैष मैथिली इयञ्च दृश्यते गङ्गा पुण्यात्रिपथगा नदी नाना द्वि ना जकणाखिणा सम्प्रपुष्पीतकान्ना शृङ्गवेरपुरं चैतत् गुहो यत्र सखा एषा सा दृश्यते सीते सरयुर्योपमानिनी एषा सा राजधानी पितुर् मन्द्रे अयोध्यां कुर्वै देहि प्रणामम् पुनरागता ततश्च वानराः सर्वे राक्षस विभीषणः उत्पत्युत्पत्य संवृष्टा तां पुरीं ता ददृशुस्तदा ततस्तु ता तां ता पाण्डुर हर्म्यमलिनीम् विशालकक्षां गज्वाजिभिर्वृताम् पुरी पश्यन् प्लवग पुरी महेन्द्रस्य यथा मरावतीम् इत्याश्ये श्रीमद् रामायणे वाल्मीकि आदिकाव्य युद्धकाण्डे त्रयोविंशति अधिकशतमः सर्गः प्री सीतारामचन्द्रार्पणमस्तु